त्र्यधिकद्विशततमोऽध्यायः द्रोण उवाच मन्त्राय समुपानीतेर्धृतराष्ट्रहितेर्नृप धर्म्यमर्थ्यम् यशस्यम् च वाच्यमित्यनुशुश्रुम ममाप्येषा मतिस्तात याभीष्मस्य भीष्मस्य महात्मनः संविभज्यास्तु कौन्ते या धर्म एष सनातनः प्रेष्यताम् दृपदा यासु नरः कश्चित्प्रियंवदः बहुलम् रत्नमादाया तेषामर्थाय भारत मिथः कृत्यन्त्य तस्मै स आदाय वसु गच्छतु वृद्धिम् च परमाम्ब्रूयात् त्वत्संयोगोद्भवाम् तथा सम्प्रीयमाणम् त्वाम् ब्रूयात् राजन् तथा असकृतृपदे चैव भारत उचितत्वम् प्रियत्वञ्च योगस्यापि च वर्णयेत् पुनः पुनश्च कौन्तेयान् माद्रीपुत्रौ च सान्त्वयन् हिरण्मयानि शुभ्राणि बहून्याभरणानि च वचनात् तव राजेन्द्रा द्रौपद्याः सम्प्रयच्छतु तथा द्रुपदपुत्राणाम् सर्वेषाम् भरतर्षभा पाण्डवानाम् च सर्वेषाम् कुन्त्यायुक्तानि च एवम् सान्त्वसमायुक्तम् द्रुपदम् पाण्डवैः सह उक्त्वा सोऽनन्तरम् ब्रूयात् तेषामागमनम् प्रति अज्ञातेषु वीर बल्गत शोभनम दुस्शा विकर्णश्चाप्या पांडवा नि ततस्ते पाण्डवाः श्रेष्ठाः पूज्यमानाः सदा त्वया प्रकृतीनामनुमते पदे पैतृके एतत्तव महाराज पुत्रेषु तेषु चैव हि वृत्तमौपैकम् मन्ये भीष्मेण सह भारत कर्ण उवाच योजिता वर्धमानाभ्याम् सर्वकार्येष्वनन्तरौ न त्वच्छेयः किमद्भुततरम् ततः दुष्टेन मनसा यो प्रच्छन्नेन अन्तरात्मना ब्रूया निःश्रेयसम् नाम कथम् कुर्यात्सताम् न मित्राण्यद्धकृच्छेषु श्रेयसे चेतराय वा विधिपूर्वम् हि सर्वस्य दुःखम् वा यदि वा सुखम् कृतप्रज्ञो कृतप्रज्ञो बालो वृद्धश्च मानवः ससहायो सहायश्च सर्वं सर्वत्र विन्दति श्रूयते हि पुरा च इतिश्वरः आसीद्राजगृहे राजा मागधानाम् महीक्षिताम् सहीनः करणैः सर्वैरुच्छ्वासपरमो नृपः अमाच्चसंस्थः सर्वेषु कार्येष्वेवाभवत्तदा तस्यामात्यो महाकर्णिर्बभूवैकेश्वरस्तदा सलब्धबलमात्मानम् मन्यमानोऽपमन्यते सराज्ञ उपभोग्यानि स्त्रियोरत्नधनानि च आददे सर्वशो मूढ ऐश्वर्यम् च स्वयम् तदा हीनस्य करणैः सर्वैरुच्छ्वासपरमस्य च यतमानोऽपि तद्राज्यम् न स साकेति नः तस्य सा यदि ते विहितम् भविष्यति विशाम्पते विशतः स्थास्यते त्वयि तद्ध्रुवम् अतोऽन्यथा चेद्विहितम् यतमानो न एवम् विद्वन्नुपादत्स्व मन्त्रिणाम् साध्वसाधुताम् दुष्टानाम् चैव बोद्धव्यमदुष्टानाम् च भाषितम् द्रोण उवाच विद्मते भावदोषेण यदर्थमिदमुच्यते दुष्टपाण्डवहेतोस्त्वम् दोषमाख्यापयस्युता हितम् तु परमम् कर्ण ब्रवीमि कुलवर्धनम् अथ त्वम् मन्यसे दुष्टम् ब्रूहि यत्परमम् हितम् अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परम् हितम् कुरवो वै विनङ्क्ष्यन्ति न चिरेणैव इति महाभार आदिपर्व विदुरागमन आराज्यलंबर्वि द्रोणवाक्ये याधिक्शत तमोध्याय